विंसोऽध्यायः वासुदेव उवाच पतितोहं हंसडिम्बकौ कंसश्च सगणोहतः हतः जरासन्धस्य निधने कालोऽयम् समुपागतः न शक्योऽसौरणे जेतुम् सर्वैरपि सुरासुरैः बाहुयुद्धेन जेतव्यः स इत्युपलभामहे मयिनीतिर्बलम् भी रक्षिता चावयोर्जयः मागधम् साधयिष्याम मा इष्टिम् त्रय इवाग्नयः त्रिभिरासादितोऽस्माभिर्विजने स न सन्देहो यथा युद्धमेकेनाप्युपयास्यति अवमानाच्च लोभाच्च बाहुवीर्याच्च दर्पितः भीमसेनेन युद्धाय ध्रुवमप्युपयास्यति अलं तस्य महाबाहुर्भीमसेनो महाबलः लोकस्य समुदीर्णस्य निधनायान्तको यथा यदि मे हृदयम् वेत्सि यदि ते प्रत्ययो मयि भीमसेनार्जुनौ न्यासभूतौ प्रयच्छ मे उवाच एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः भीमार्जुनौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ युधिष्ठिर उवाच व्याहरा व्याहरामित्रकर्शन पाण्डवानाम् भवान्नाथो भवन्तम् चाश्विता वयम् यथा वदसि तदुपपद्यते न हि त्वमग्रतस्तेषाम् येषाम् लक्ष्मीः पराङ्मुखी मोक्षिताश्च महीक्षितः राजसूयश्च मे लब्धो निदेशे तव क्षिप्रमेव यथात्वे समुपपद्यते अप्रमत्तो जगन्नाथ तथा कुरु नरोत्तमा त्रिभिर्भवद्भिर्हि विना जीवितुमुत्सहे धर्मकामार्थरहितो रोगार्थ इव दुःखितः न विना पार्थो न अयञ्च बलिनां श्रेष्ठः श्रीमानपि युवाभ्या सहितो वीर किं न कुया महाशया सुप्रणी तो बलौोि कुेमुत्म अंधम बलं जडं प्राहु प्रणेत विचक्षण यतो हि निम्नम् भवति नयन्ति हि ततो जलम् यतश्छिद्रम् ततश्चापि नयन्ते धीवराजलम् तस्मान्नयविधानज्ञम् पुरुषम् लोकविश्रुतम् वयमाश्रित्य गोविन्दम् यतामहकार्यसिद्धये एवम् प्रज्ञानयबलम् क्रियोपायसमन्वितम् पुरस्कुर्वीतकार्येषु कृष्णम् कार्यार्थसिद्धये एवमेव यदुश्रेष्ठ यावत्कार्यार्थसिद्धये अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम् नयो जयो बलम् चैव विक्रमे सिद्धिमेष्यति वैशंपायन न उवाच एवमुक्तास्ततः सर्वे भ्रातरो विपुलौ जसः वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधम् प्रति वर्चस्विनाम् ब्राह्मणानाम् स्नातकानाम् परिच्छदम् आच्छाद्य सुहृदाम् वाक्यैर्मनोज्ञैरभिनन्दिताः अमर्षादभितप्तानाम् ज्ञात्यर्थम् मुख्य तेजसाम् रवि सोमाग्निवपुषाम् दीप्तमासीत्तदा वपुः हतम् मेनेजरासन्धम् दृष्ट्वा भीमपुरोगमौ एककार्यसमुद्यन्तौ कृष्णौ युद्धे पराजितौ ईशौ महात्मानौ सर्वकार्य प्रवर्तिनौ धर्मकामार्थलोकानाम् नाम च प्रवर्तकौ कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गळम् रम्यं पद्मसरो गत्वा कालकूटमतीत्य च गण्डकीम् च महाशोणम् सदानीराम् तथैव च एकपर्वतके नद्यः क्रमेण इत्या व्रजन्तते उत्तीर्यसरयूम् रम्याम् दृष्ट्वा पूर्वांश्च कोसलान् अतीत्य जग्मुर्मिथिलाम् पश्यन्तो विपुला अतीत्य गङ्गाम् शोणम् च त्रयस्ते प्राङ्मुखास्तदा कुसचीरच्छदा जग्मुर्मागधम् क्षेत्रमच्युताः तेशस्वद्गोधनाकीर्णमम्बुमन्तम् सुभद्रुमम् गोरधम् गिरिमासाद्य ददृसुर्मागधम् पुरम् इति श्रीमहाभारते सभापर्वणि जरासन्धवधपर्वणि कृष्णपाण्डवमागधयात्रायाम् विंशोऽध्यायः